न्द्राहम् यथा त्वमीशीयस्वस्यामस्वेदम् दशीपते मनीषिणे यथाहम् गोपादिस्याम् धेष्टान्द्रधूता यजमानाय सम्पते गामस्वम् विद्युषी दुहे इन्द्रदेवो न वर्त्याः यद्यत्र दि स्तुतोमखम् यज्ञ इन्द्रवर्धयद्यद्भूमिम् च वर्धयते चक्राणो वसन् दिविधानस्य तेष्वाधानि जिग्युषाः भूतिन्दरिक्षमजे सोमस्य रोचना इन्द्रो यदभिनद्बलम् मुद्गाजदङ्गीरोऽभ्याविष्कण् सतीः अर्वाञ्चम् नुनुते बलम् इन्द्रे दृढानि दृम्भिराणि च स्थिरानुदे अपामोर्निर्मलन्निव स्तोम इन्द्रादिराजते अराजिषुः हि सोमवर्धन इन्द्रास्युक्थ्रवर्धनः सोद्रीणामुतभद्रकृत् इन्द्रवित्ते हरी सोमवे राजवक्षदः उपयज्ञम् सुराधसम् अपाम्बेनमूजे शिर इन्द्रोदवद्भदः विश्वायदज यस्पृधाः मायाभिरुन्द्रज्जामारुक्षदः अवदस्योमृदोधाः असुम्बामिन्द्रम्पदम् विषो जीम् जनाशयः सोमपाबुत्तरो भवन् तमभिप्रकाशरपुरुहोलम्बोरुष्टुतम् इन्द्रम् गेभ्यस्तविषमाजीवासत यस्य द्विपृगासो भृगत्सो दासार रोदसी गिरीङ्ग्रज्रामपस्वृषत्वदा स राजसि मुरुष्वताङ्गेको वृत्राणि विघ्नसे इन्द्रचयित्रा श्रवस्याः जयन्त मवे अम् देवनम् गृणीमसि मृषणम् मृत्सु सा सहिम् मद्रिवो हरिश्रियम् येन ज्योतीयम् शाजवे मन वेत विवेदीथ मन्दान अस्य परिहितो विराजसि तद्य चित्तबुद्धिनोऽनुवन्ति पूर्वथापत्नीरपोजिवेदीवे दि त्ययिम् दियम् जहत्तवसुष्णमुदः क्रतुम् वज्रम् द्विजादिषणापरेण्यम्भज्योरिन्द्रपोंस्यम् पृथिवी वद्धतिश्रवाः स्वामापर्वदासस्य हिङ्गिरे स्वाम् विष्णुर्बृहन् क्षयोमित्रो सद्धो स्वाम् सर्भोदत्यनुमारूतम् मृषादलानामङ्गिष्ठ इन्द्रजिगिषे स्वपत्यानि ददिशे सत्रात्वम्बोष्टताोषसे नान्य इन्द्राकरणम् भूय जिन्वनि जिरिन्द्रमन्मथस्वानानाहमन्तभूतये अस्माके भेन्द्रिरत्रास्वर्जय षया जनो महे विश्वा रूपाण्यापिष इन्द्रम् चैत्रायहर्षया सतीपतिम् प्रसम्राजम् कर्कणीनामिन्द्रम् स्तोलम् यम् गीर्भिः विषाहम् मङ्गष्ठम् यस्मिन्मुक्था निरण्यन्ति विस्वाहा निजस्रवस्याः पापामपोनसमुद्रे तम् सृष्टत्याबीवासे ज्येष्ठराजम्भरे कृत्रम् महाबालिनम् सनिभ्याः यस्यामो नागभीरामदा गुरवस्तरुत्रा हम् पूरसातौ तमिद्धनेषु हितेष्वधिपाकाय हवन्ते ये रामिन्द्रस्ते जयन्ति अमित्यौत्नैराज्यम् कृतेभिश्चर्षणजाः एष इन्द्रोपरिभस्कृत् इन्द्रो ब्रह्मेन्द्ररिषिन्द्रः पुरोपुरुहूतः महान्महीभिः स्वजीभिः सोम् यः स्वहम् यः सद्यः सत्त्वादुविकूर्मिः ये कश्चित्सन्नभिभूतिः तनर्गे भिस्तम्बामाभिस्तङ्गा यत्रैस्तर्षणजाः इन्द्रम् वर्धन्ति क्षितजाः गणेतारम्बस्य अच्छाकर्ता रञ्ज्योतिः समत्सु सा सह्वांसञ्जुधा मित्रान् स न प्रलयादिष्वस्ति ना वा विस्तंगा सत्पन्न इन्द्रमादेभिर्दसस्या च गातुजा च अच्छाः च नः शृणम् नेपि आजाः हितुषु वाहितलिन्द्रतोमम् पिबाजिमम् एलम्बरिगिः स गो मम आत्वा ब्रह्मयुजाहदीवः तामिन्द्रकेशिनाः ब्रह्माणस्त्वाभयम् जुजासो मपान्द्रसो विनाः सुतावन्दोहवामहे आ नो जाहि सुतावतोऽस्माकम् सुष्टुतीरुप विभान्ध सह आदेशगात्राभिधावतुभाय जिह्वाजावधु स्वादृष्टे अस्तु संसृते बधूमान् कन्वेष अयमुत्त्वाभितर्षणेचनीरिपाभिसंवृतः रसोम इन्द्रसर्पतु श्रीग्रीवा वपोदरस्तु बाहुरन्ध्रोमदे इन्द्रो वृत्राणि जिघ्नरे पुरस्त्वम् विश्वस्ये सा नमोजसा ऋत्राणि वृत्रहञ्जहि देभस्ते अस्त्वम् दुशो ये नावसु प्रयच्छसि यजमानाय जी। सम्पदे अयन्तायन्द्रो बानिपूतो अधिबल्हिषि ये हिमस्य द्रवापिव साजी गो साजीपूजनाय मृणायते सुतः आखण्डलप्रभूयते यस्ते शृङ्गमृषो न पात्प्रणपात्कुण्डपाय्याः येस्मिन्नद्रामनाः पास्तोपदे ध्रुवास्थूणाम् सत्रम् सोम्यानाम् गप्सो भेत्ता पुराम् सीनामिन्द्रोमुनीम् सखादुरा यजसो गवेषणये कन्नभिभूय सः भोजिवस्वम् नयत्तुजा पुरोगृभेन्द्रम् सोमस्य पीतजे इदम्ब नूनमेषाम् सुम्नम् भिक्षेतमत्याः आदित्या नाम पूर्जम् स वीमनिर्वाणो येषाम् पन्था आदित्यानाम् अरब्धाः सन्ति पादवस्तु के वृथाः तत्सुरः सविता भगोवरो नो मित्रो अर्जमा यच्छन्तु स प्रसोदजीमहे देवे भर्दे तेहि पुत्रासो धर्माभिः ये हि पुत्रासु अजीतेर्विदर्द्वेषांसि योतवे अम्भोऽश्चिदुरुचक्राजोनेहसाः अजीतिर्दिपाः वसुमदीशर्मध्वजाः अजीतिः पात्वम् गासः स्वराधा ्यामदिरीनिरूच्यागामत् सा शम् तादिवयः करदवसृाः पुनद्या देव्याभिषजासम् नः करतो अश्विनाः जीजाताभिनो रथो अवसृधाः स्वमग्निरग्निभिः करच्छन्नस्तपतु सूर्याः संवातो वात्मलपा अवसृधाः अपामी पामपाश्रुधमपासे सदुर्मम् आदित्यासो जुजोतानानोहम्मासः जिजोतासरूपस्मदामादित्यासहुतामादिम् विषर्गेण कृणुतविश्ववेदसः तत्सु नः सन्मा यच्छादित्याजम् मोचति येन सौन्द्रम् शिलेन सः सुदानवः श्च त्रिरिक्षतिरक्षस्वे न मत्याः जनाः समित्तमघमस्तद्दुष्वम् सम्मत्यम् यो अस्मत्रा दुर्गणायोः काकत्रास्थन देवाहृत्सुजानिभवत्यम् उपध्वयम् चाद्वयम् च वसवः आशर्मपर्वाता भाभोता वाम् ऋणीमहे या वा क्षाभाते अस्मद्रपस्कृतम् येनो भद्रेण शर्मयुष्माकम् वासवः अधिविश्वादिगुरिरान उचेतनायतत्सु भोद्राघीयायब्जीवसेः आदित्यादस्तु मह स कृणोद न यज्ञो ही लोभो अन्तरादित्या अस्ति मृणता युष्मे यज् अपि श्वसि स जाते बृहद्वरोधम् वरुताम् देवम् प्रातरा वस्विना मित्रमे अनेहो रेहो मित्रार्यमन्वरुणशंश्रम् त्रिपरोधम् मरुतोऽयम् वनच्छर्दिः ये सिद्धिमृत्युम आदिद्रामनवस्मसि प्रोहायुर्जीवसेतिवेतन रङ्गोर्धया स्वम् देवासो देवमरलिङ्गधन्विरे ेवत्रामोही रे विभूतरादिम् वित्रिशिप्रजोदिषमग्निमेरिष्मयन्तुरम् अस्य मेधस्य सोम्यस्य सोभवे प्रेमध्वराय पूर्वम् यजेष्ठम् पावमहे देवम् रेभत्राहोता रममद्यम् अस्य यज्ञस्य सुक्रतुम् सो जो न पातम् सुभगम् सुबीतिमग्निम् सर्वना समामित्रस्य वरो न स्यसो अपामासोन्नम् गक्षते दिवि यः समिधाय आहूति यो वेदेन ददा समर्थो अग्नजे यो नरः स्येदर्वम् दोरम् हयन्त आशभस्तस्य द्युम्नितामञ्जसाः न तमङ्गो देवकृतम् कुतश्चननमत्याकृतम् न सत् स्वप्नयो वो अग्निभिः स्यामासूनो सहस ऊर्जाम्बते सुवीरस्त्वमस्मयोः प्रशंसामानो अतिथीर्णमित्रियोऽग्नेरथो न वेद्याः सन्ति साधवस्त्वम् राजानाम् सोऽध्वधास्वध्वरोऽेवस्व भगव प्रशंसा स धीभिरस्तु सनीता यस्यो अध्वरा चिक्षय धीरस्व साधने ोऽद्भिः सनी दासबी पर्यभिः सूरैस्वनीता कृतम् यतस्या गर्वोर्गृहे स्तोमन्त्रमोदधी एत विश्ववार्यः हव्यावावेपीषद्विषाः विप्रस्य मास्तु पतः स हसोजो भक्षूतामस्य राजिषु अमोदे देवमुपरि मत्यम् कृधिवसो विविदुषो वचाः यो हिम् हव्यदाति नमोभिर्वा सुरक्षा माविवा सति गिलावादिरसोजम् समिधायो निशीतिता सदती किम् दामभिरश्रमत्याः विश्वेत्स दीर् सुभगोदना कलिजुम्ने रुग्नजीवतारिवत् तदग्नेद्युम्नमाभरयत्सा सहत्सने कञ्चिदत्रिमम् मन्यम् जनश्च येन चष्टे वरुणो मेत्रो अर्जवायेन न सत्याभगाः यम् दत्ते सपा सा गातुमित्तमालिन्द्रत्वताभिधेमहिने स्वाध्यो जे त्वारधिरे चक्षसम्प्रासो देव सुक्रतुम् तयि द्वेदिम् सुभगताहुति चक्रिरे लिवि ैराजेभिर्जग्यर्मह ध्वनम् जे त्वे कामम् येरिरे भद्रो नोः अग्निराहूतो भद्रा राजिः सुभगभद्रो अध्वरः भद्राद्रशस्तयः भद्रह्मणः कृणस्वरतनूर्जेजेना समत्सु सासहा अवस्थिराता न हि भूरिसर्धराम् वने मा ते अभिष्टीभिः ईवे गिरामनुर्हिताम् जम् देवा दूतमारजेष्ठम् गम् जवाहारम् इग्मजम्भाजतरुणाय राजाते त्रयोगायस्वग्जे ृताभिर्घृतेहूतः वासीमग्निर्भरतमुच्च असूर इव निर्मितम् यो हर्याण्यैराजतापनर्हृतो देव आशासु गन्धिना शिवा स देवार्या विश्वध्वरो होता देवो अमर्त्यः यदग्ने मर्त्यस्त्वम् स्यामहमित्रमहो अमर्त्यः सहसस्थ न बाहुत नत्वाराशियाभिषस्तदेव सोनमा गत्वा य सन्त्योतान दीवानदुर्गीत सदग्नेन पापया श्रीवर्णपुत्रः सुभृतो दुरोण आदेवान्ये रेणो हलिः तपाहमग्नभूतिभिर्णे दुष्टाभिस्वोषमापसो सदाः देवस्य मत्याः तव कर्त्वा समेदम् प्रवालादिभिरग्ने तवप्रषष्टिभिः अग्ने तोतिभिः सुवीराभिश्चिर देवाजधर्मभिः यस्य त्वम् सख्य माबराः तवद्रप्सो नीलवान् वासवित्थानस्य समाददे त्वमालीलामुषदाियः क्षपो वस्तुषु राजसि त्वमागन्मसोभरयः सहस्रामुष्कांसभेष्टिमभे साम्राजम् राजादस्यवम् यस्य ते अग्ने अन्ये अग्नय उपक्षितो भजाव ो नद्युम्नानि यो वेदनाम् तव क्षत्राणि वर्धयन् यमानित्यासोद्रुहः पारम् नयसमत्यम् भगो नाम् विश्वेषाम् सुदानवः यूयम् राजानः कञ्चित्तर्षणि सा क्षयन्तम् मानुषा ननु वयम् देवो वरो न मित्रार्य मास्यामे धृतस्य रथ्याः प्रदान्मे गोरुगुत्सः पञ्चासदम् त्रसदस्युर्वधूनाम् ब्रह्मिष्ठो अर्यः सत्त्वादिः उत मे प्रययोर्वययोः सुवा स्वाधिरुग्वादि ीणाम् सप्तदीनाम् यावप्राणेता भूपद्मसुद्धियानाम् पतीः आगम् कामारीषण्यतप्रस्था वा नो मा प्रस्थादागमन्यवः स्थिरादिन् नमयिष्णवः इशाणो अत्यागता पुरुष्पो यज्ञमासो भलीयव ये माहि रुद्रियाणाम् कृष्मा मुद्रम् मरुतां स्विमीवताम् विष्णो रेणस्य मीरुषा ये द्वीपानिपापदम् तिष्ठद्दुच्छुनो धन्वान्यैरतशुभ्रखादयोजते च दस्वमानवः अच्युदाचिद्वो अध्वन्नादानादधि पर्वतासो बनस्पतिः भूमिर्यामेषु मे जते अमायमो मरुतो यातमेद्योर्जिः समुत्तराबृहत् यानरोदेशते ततो श्वा त्वक्षान्सिबाह्वोदः स्वधामनुसृजम् नरो महि त्वेषा अमावन्तो वृषप्सवः वहन् वे अक्रूतप्सवः गोभिर्बालो अद्य देशो भरीनाम् रचे पूसे गो बन्धव सुजाता भूये महान्तो न स्मरसेनो गतीवो वृषदन्दजो वृष्णे सब्धाता च भरध्वम् भव्यामृष प्रजाम्ने मृषणस्वेन मरुतो मृषप्सुनारसेन मृषनाभिना आस्येनासो न पक्षिणो वृथा नरो हव्यानोऽभीतये गत समानमञ्जेषाम् विभ्राजन्ते रुग्मासो अधिबाहुषु न विद्युतदृष्टजाः न उग्रासो वृष न उग्रवाहपो नृष्टनूषु जेतिरे ण्यायूधारथेश्वकेष्वधियाः येषाम नो न सप्रसो नामत्वेषम् सस्वतामेकमिद्भुतेयोजो न पित्यंसः कान्वन्दस्व मरुतस्ता सुवस्तु हि तेषाम् मिथुनीनाम् न्न च रमस्तदेषान्दानामह्नादेषा सुभगत्सवभूतिष्मा सपूर्वासुमर्तो यो वा नो नमुदा सति यस्य वायूयम् प्रति वाजिनो न आहव्या वीतये गता अभिनजुम् नैरुतवाजसातिभिः सुम्नावो धूतयो न सत् यथा रुद्रस्य सूरवो जीवो वसन्त्यशूरस्य वेदसाः युवा नस्तते च सत् ये नवस्य हृदा युवानावावृध्वम् यूना भूषुण विष्टजा वृष्णः पावका अभिशो भरे गिरा गारीवचक्रीषत् साहारे सन्ति मुषिहेमहम् यो विश्वासु मृत्सुदृषु कृष्णश्चन्द्रान्नश्रवस्तमा विगामन्दस्त्वमरुतोसजात्येन मरुदः स बन्धवः विगते कगुभोभिधः मर्दश्चिद्वो नृतवो ऋग्ववक्षसमुपभ्यादृत्वमायाति अधीनो गादमरुदः स दाहितमस्ति निद्रूहि मारुतस्य न आभेशजस्य वहता सुदानवः यूयम् स कायः सप्तजः याभिः सिन्धुमवधजाभिस्तोर्मधजाभिर्दसस्यथा क्रिमिम् मजोरोभूतोदिभिर्मजो भुवः शिवाशीरसद्विषः यत्सिन्धो यत स ज्ञान्य बुद्धेषु मरुतः सुपरिगिणः यत्पर्व तेषु भेषजम् विश्वम् पश्यन्तभृता तनुस्वाते नो अधीवोचत क्षमारवो मरुतः आतूरस्य न युष्कर्त्रा विहूतम् पुनाः भात्रा न अपीवातयमनाः ओ हरिः ओताश्चिद्भरम् तो पश्य वाह वाजे चित्रङ्गमहे उभत्वा कर्मजे स नोजुपोग्रश्चक्राभजोधृषत् स्वामिद्यावितारम् सखायन्द्रसा नसिम् आया हिम इन्दवोऽश्वापते गोपदौर्वारापते सोमम् सोमपते विव भयम् हित्वा बन्धुमन्दमबन्ध गोविन्द्रास इन्द्रये विम जाते धामानिर्णपतेभिरागा हि विश्वेभिः सोमवीतये ीदन्तस्ते वयो यथा मधौ मदिरे विवक्षणे अभि त्वामिमः रक्षादीना नमसापदामसीम् मोहस्तिगजीधयः सन्धिकामासो हरिमो दृष्ट्वाम् स्वो भयम् सन्ति नो दियाः ते भजभूति अभूमनहि नु ते अद्रिवः विद्वा पुरा बलीयेन सह विद्वा सखित्वमुतसूरभोज्या अमादेतावत्रिण्णीमहे बसो समस्मिन्नाशीशीहि नोपसोपायेषु चिप्रकोमादि न इदमिदम् पुरा प्रवस्य आदिनाय तो वस्तुषे सखाजयिन्द्रमूतये अर्यश्वम् सर्पादिम् चरणीस हंस हेष्मायोमन्तत आतुनस्तवयसि गव्यमश्यम् सोदृभ्यो मघवासनम् भजम् रति स्वसन्तम् ऋषभ्रुवीमहि संस्थे जनस्य गोमातः येमकारे पूर्वभूतकारिणोऽभितिष्ठेम दूत्याः नृभिर्वृत्तम् हन्यामसूदियामदा वेरेन्द्र प्रणोदियाः अभ्राद्रव्यो आत्मनाभिरिन्द्रजनुषा सनादासिता विद्वमिच्छसे न गीरे वनन्तम् सख्याया विन्दसे पीयम् दिते सुरा स्वाह यदा कृणो समो हस्यादिहूयसे माते अमायुरो यथा भून्द्रसख्ये त्वाषदामस चा सुते माते गोलत्र निरराभराधस इन्द्रमाते गृहाणि गृहाणि दर्यतेन आदभे इन्द्रो वाघेरियम् मघम् सरस्वती वासुभगादुर्वसु त्वम्बा यत्र दासुषे चेत्रयत्राजाराजगायिगम् जके जके सरस्वतीव अर्जन्यायिव तदमद्धिवृष्ट्या सहस्रावयुपाददत् कोत्यमः आदस मज्जादम् सृष्टभूतये यमश्विना भुभवा रुद्रवर्तदीआसूर्याये कस्ततोः पूर्वाम् सुभवम् पुरस्पृहम् भज्यम् वाजेषु पूर्व्यम् रवन्तम् सुमतिभिः सोभरे विद्वेषम् इहत्या पूर्वभूता वाजे वा नमो विना सर्वादीना स्वसेवराम हेमन्ता राधासुरो गृहम् यमो रथस्य परिचक्रनीयत हीर्वान्यद्वाभिषण्यति अस्मार्चा सुमतिर्वाजुनस्पति आधेनुरेव धावतु रतो यो वाधुरो हिरण्याभी सुमश्विना पृथिवी भूरदिश्रुतस्तेनगतम् दश्यम् तापनवे पूर्वम् दिविजवं मृगे न करिषतः आवामद्यसु पतिभिः सुभस्पति अश्मीरास्तु भीमहि उपा नो वाजिनीवसु जातमृतस्य पथिभिः ेभिस्तृक्षिम् वृगात्रा ददः शवम् महे क्षत्रायजिम्बः अयम् भामत्रिभिः सुतः सोमो रासु आयातम् सोमापीतये वासुसोपग्रे आहिरुमताभिदादथे कोशे हिरण्यजे मृषण्वसु चिन्ताः याभिः जा पक्षमवासो जाभिरद्रीगुम् जाभिर्बभ्रम् विजोरम् ताभिर्नो भक्षूदूजागतम् जलादूरम् यदध्रीगा वो अध्री गो यदाचिदन्ना अस्मिनाहवाहे भयम् कीर्द्भिर्वि पञ्जवाः ताभिराजाम् विश्वप्नुम् विश्वपाल्यम् विरामम् ज्यष्ठामुभूता मानराजाभिकृ वृहस्ताभिराजतम् साभिराचितः राम् तापस्विना वन्दामानवुपब्रुवे तावो नमोऽभिरीमहे ता विद्रोणादासी सुभस्पतीराजामन् रुद्रवर्तनी नो वय रिपवेवादिनी वसूपरो रुद्रापतिक्षतम् आरुज्ञायसुज्ञम् प्रातारसेनाश्विना वासक्षणी भुवे विवे वसो भरी मनोजमसावृणामरच्युतामक्षम् गमाभिरूधिभिः भूतमस्तेहे भूर्ये वित्पुर्भोजना आदोरश्वापरश्विनाभक्तिर्यादिष्टम् मधुवातमानला गोवर्दशाहिरन् यवत् सुप्रामर्गम् सुदीर्घम् सुष्ठु वा यमना दृष्टम् रक्षस्वि अस्मिन्नावा जाने वाजिनी वसू विश्वा वामानि धीमहिलेष्वाहि प्रथीव्या अञ्जस्व जातवे रसम् सरिष्णधो मम दामानं दामानम् विश्वदर्शनेऽग्रिम् विश्वमनो गिरा उदरसोषे विश्वर्थसो रथाना धरिग्रिय इव प्रेक्षस्तनिगृहे उपविधावन्निर्विन्ददेवसु उदस्य सुर्जिदीषोऽप्या अजरम् भवद्गम्भस्य सुद्युतो गणश्रियाः उदो जिष्ठस्वध्वरस्त्ववादेव्या अभिक्षाभासाद्हासु शुक्वनीः अग्नेयादिषु षष्टिभिर्हव्यजुक्वानुषग् यथा दूतो बभूतर्हव्यम्ब को जम्भूगेहोदानम् गर्हणीना समजावादाग्रि नमो वस्तु रे यज्ञेऽविरद्भूतम् धृवासूदयम् नज नेत्रेषु धीतमृतावायिवानमृताय वो यज्ञस्य साधनम् गिरा भो जैनम् यजुषन्नमासस्पते रक्षाधो अङ्गीरस्तमम् यज्ञासोऽ संयताः ो धायो अस्ति विक्ष्वायसस्ते अर्जने बृहद्भाः अश्वायवृषाणस्तविषीयवाः सर्वन्न पूर्जाम्बदेश्वसुवीर्यम् रावणस्तोकेतन ये समत्स्वा यद्वावो विश्वति श्रस्वप्रि लोमनुषो विहि विश्वेधग्निः प्रतिरक्षाम् निषेधति सृष्टभे नवश्य मे स्तोमस्य वीरविश्वदेशस्तभूषा रक्षसोदः न तस्य मायया च अधिपुरीशीकमर्त्याः यो अग्नये ददास हव्यदाजिभिः यासु विदा मोक्षाण्ये नादृशीः महोराजे समुत्त्वा समी धीमहि सुहोतारमसादयत् आयदिम् कामना वे जातवेम् श्रेहित्वा सजोगातो देवासो दूतमग्रत सृष्टिदेव प्रथमो यज्ञो भुवः युमङ्गा वीरो अमृतम् दूतम् कृण्वीरमर्त्याः पापकम् कृष्णवर्तनिर्विहायतम् तम्भूम यत श्रूतः सुक्रसो शुक्रसोदिषम् विशाभग्निमजलम् रत्रवीर्यम् यो अस्मै हव्यतादिभिराभूतिम् महत्व भूरिवोषम् दधत्ते वीरभद्रसाः प्रथमम् जातवेदसमग्निम् यज्ञेषु पूर्वम् प्रतिश्रुये जयमासा हविष्मति आभिर्विदेवाग्नये ज्येष्ठाभिर्यस्वत् मम्भ्यष्टाभिर्मतिभिः सुत्रसो ये नूनमत्यभिगायसे स्तो मेभिः स्थूलयु अवद् विषेवय्यस्वदम् जाग्नये अवीथिम् मानूनाम् सोनम् वनस्पतीयाम् अग्निमवासे परक्रमीलते महो विश्वानतोमसाधिबर्हिषि अहम् स्वानो वार्यापुर्वम् च राजः पूरुस्पृहा सुवीर्यस्य प्रजापतो जशस्वतः त्वम्बारोऽसुषाम् मेग्ने जनायशोदय सदा वसो राजिन्द्यभिष्ठदस्वते त्वम् विष प्रथित्वम् लो गोपदीर्षाः महोराजस्वादिमग्ने अपानसि अग्ने त्वम् जशा अष्टमित्रावरुणावः ्राजा भूतदक्षसा सखाजासी राम हि ब्रह्मेन्द्राय वज्रिवेषभूषुपोलमायधृष्णवे शपदाह्यसि श्रुतो वृद्धहत्येन वृद्धः मघैर्मघो नो अतिशूरदाससि स्तवाल आभरयम् जित्वश्रामस्तमम् एके जिजो हरिभोगसुर्दरिः आभरा झषदाधिष्ठास्तवानाभर न ते सव्यम्ब दक्षिणम् आमुराह भवन्त आमुराः हरिभोगविष्टिषु आत्मा गोभिरिव व्रजम् गीर्भवः आस्माकामम् धरितुरा मनःप्रणा विश्वानि विश्वमानसो धिया नो वृत्रहन्तम उग्रप्रणेतरधिषो वसोगहि वयम् ते अस्य वृत्नहन् विद्यामासूरन व्यासः स्य पुरुहूतराधासः इन्द्रयथाह्यस्थिते पारीतन् ऋतोसवाः अवृत्तारादिः पूरुभूतदासुषे आवेशस्व महामहामरेन्द्रितमराधासे रश्चिद्रह्यमघवन्मघत्र ये नो अन्यत्राशिरद्रिभस्त्वन्नो जग्मुदाससाः अघवाञ्छ भूतिभिः न ह्या अङ्गकृत्वरञराधसे नारेज्युम्ना निसे च गिर्वणः ये धुरिन्द्रायसिम् च कपिपादि सौम्यम् मधु पो हरीणाम् प्रयुण्डक्षम् कृञ्चन्तमब्रवम् नूनम् श्रोज्यस्तु पतो अश्वस्य नह्या अङ्गपुराजनयज्ञे वीरतरसु नरीरायानैव धानभन्धुमध्वो मलिन्दरम् सिंहः ध्वर्यो अन्धतः हि वीरस्तमा ते सदा वृधः इन्द्रस्वादुर्वरी नाम भूयस्तूतिम्नम् स सवसानबन्धः तम् भो बाजानाम् पतिमहो महि श्रप्रायुभिर्यज्ञे भर्वाण्यम् स्तवासखा जस्त्वम् जम्बरम् दृष्टीर्यो विश्वा अभ्यस्ते गजित् अगोरुधाय गविषे दुक्षा जलस्वम्बताः धृता स्वादी यो मधूरश्च बोधत यस्यामीतानि वीर्या आनराधः पर्ये तवे ज्वलह्म विश्वामभ्यस्विलक्षीणा सुहेन्द्रम् यस्वधोल्लिजलम्बम् विश्वतसम्भवम् सुविद्वाम्सं सकृत्यम् तरणीनाम् तेच्छायुर्वेदीनाम् हस्तपरिवृदम् अकारहस्वञ्जुपाणिपदानि यदिन्द्राभाजेनादम् षष्ठत्पाले विद्वारुतायदि स्मसो नियोजया समुद्वादूनभीमहेलव्यम् दम् षष्ठसन्न्यासे त्वन्नो विश्वा अभिवाजी स क्षणीः यक्षातुम् रासो बुधद्यो वार्या सप्तसिन्धुषो अधस्य तु विनम् मनी नमः यथा पुरो धनेभ्योरयम् य स्वेभ्यः सुभगे वादिनीवति र्यस्य दक्षिणाद्य स्वा सोविनाः स्थूलम् शाधः शतमः सहस्रावत् यच्छादि नः कुहला